अथ पञ्चमकाण्डे द्वितीयः प्रश्नः प्रारम्भः जयमभ्यजयन यद्विष्णुक्रमान् प्रमदे विष्णुरेव भोक्ताय जयमानश्चन्दोभिरिमान् लोकानपजयमभिजयति विष्णुक्रमास्यभिमादिहेत्याः गायत्रे वै पृथिवीत्रैष्ठभवन्तरिक्षन्द्यागदे जोलानुष्ठभेतिषश्चन्दोभिरेवे मान् लोकान् यथा पूर्वमभिजयति प्रजापतिरग्निमसृजत ृष्टपरामेतया वै प्रियन्धा मा वरुन्धय देता मन्वाज्ञैरेवेदया प्रियन्धामावरुन्धईश्वरो वा एष परान् वृदघयो विष्णुक्रमान् क्रमते च रसुभिरावर्तते चत्वारि छन्दागुं षि छन्दागुं सलुपा अग्ने प्रियातनप्रियामेवास्य तनुवमभि र्यावर्तते दक्षिणा पर्यावर्तते स्वमेव वीर्यमन पर्यावर्तते तस्माद् दक्षिणार्थ आत्मना वीर्यावर्तरथ आदित्यस्यैवावृतमनपर्यावर्तते शुनस्येवमादिगर्तिम् वर्णा गृह्णात्स एतां वारणीमपश्यत्तया वैद आत्मानम् वर्णपाशादमुञ्च वा एतम् गृह्णाति युखामृतिमुञ्चत उदुत्तमम् वर्णपाशमस्मदे त्याः आत्मानमेवैतया वरणपाशान् दृत्यात्मानोहर निर्ध्रवशिष्ठा वित्याः प्रतिक्षैत्याः विषयै ननु समर्धयत्यस्मिन् राष्ट्रमधिश्रयत्याह राष्ट्रमेवास्मिन् कर्यङ्कामय राष्ट्रग्रस्यादितं मनसाध्याय राष्ट्रमेव भवत्यग्रे बृहन्ध स्थादित्याहाक्रमेवैनसमानाना करोति निर्जक्ष्मि वा तमसहित्याहतमेव स्मादमहन्दित्योदिषा घादित्याहत्यावादिभिः सादयति छत्वारिच्छन्दा गो षिछन्दाभिरेव रिच्छन्द सोत्तमया वर्ष्मि वा एषा छन्दसान्यदधिछन्दावर्ष्मैवैनको समानानां करोति सत्त्व सत्त्वमेवैन ष्ठद एतेनधायन्दामावरुन्ध एकादशं भवत्येकीर्यन्दधा दुष्टोमेन वै देवा अस्मिन् लोकः सोमस्येव खलु वा एतत्रोपद्वा सप्रं यद्वा सप्रे ष्ठत इममेव तेन लोकमभिजयते यद्विष्णुप्रमान्द्रमदेवद्यप्रक्रामद्युत्तरेद्युरुपतिष्ठते तस्माद्योगे न्यासाम् प्रजानां मनः क्षेमेऽन्यासां तस्माद्यायावरः क्षेम्यस्येषु मुष्टिकराजयच्छ अन्नपदे अन्नस्य न देही इत्याहानिर्वा अन्नपदि स एवास्मा अन्नम् प्रेच्छक्षणमेलस्य इत्याह यक्ष्मस्य दिवा वैद्याः देहित्य देहृत्यपदे चतुष्पद इत्याहाैतामाशाः स्वे देवा इत्याह प्राणा वै विश्वे देवा प्राणैरेवैनमुद्यक्षदे मे परन्तु जित्यभिरित्याह यस्मा एवैन योज्यच्छते तेनैवै न गो समर्थयति च दशभिरासादयति चत्वारिछन्दा गोभिरेवादिच्छन्दसोत्तमयावष्म एषा छन्दसा यदति छन्दावस्मै वै नो समाना सत्त्व सत्त्वमेवैरङ्गमयति प्रेद्योतिष्मान् याहि ज्योतिरेवास्मिन्ददाति तनुवा एष्योहिरस्य माहिस्तनुवा प्रजाय एवैको समेत रक्षागो च पचतिमेवामपचति मान समिधाति यथा प्रा मनस्य गायत्रो हि प्रा मनस्पृष्टुभाराजन्यस्य त्रै शुभो हिराजन्य शुभस्मप्रवेशयत्यप्सुयोनिस्वामेवैमयति प्रवेशयदत्र मृत्वा अग्निर्यावानैवाग् नग्निमवधुभस्मप्रवेशे दृज्योतिष्मदीभ्यामवदथा दृज्योतिरेवास्मिन् तथा दृत्वा ्यां प्रतिष्ठित्यैवा एष प्रजां पुरुषो नुभस्मप्रदेशे द्वि पुनरुच्यासहरय्ये त्रिपुनरुदै प्रजामेव पुरुषो नात्मन्दत्येवस्वादित्यामिन्धताहैतावा एतं देवताग्रे समेताभिरेवैनमिन् देवोधासबोधीत्युपदिष्ट बोधयत्येवैलं तस्मात् सुप्त्वा प्रजा प्रबुध्यन्ते स्थानमुपतिष्ठते तस्मात् यथा स्थानम् पुनरेभ्योपतिष्ठन्ते देवै पृथिवेदस्यै यमाधिपत्यं परीयाय यो वै यमं देवयजनमस्या निर्याच्छाग्ञ्जनुते यमायै नमो स चनुते भेदेवसाय यति यममेव देवयजनमस्यै निर्याश्चात्मनेतष्वक्रेण वा अस्यामृतमिच्छन्ताना विन्दे देवा एतज्जुरपश्यन्नभेदेनाद्यवसाय यत्यमामृतदेवाग्निंजन देवास्यामेध्यन्तदपहन्त्येतत्त्वाग्नरस्य रूपेणैव वै श्वानरमवरन्धवोषान्निपति पुष्टिर्वा प्रजननन्यदोषात् पुष्ट्यामेव प्रजननेत्यञ्जनते ूनान्यदोषाद्या वा पृथिवी सहास्थान्ते वि यदि अप्रोधामस्त्वेवनो सह यज्ञमुष्यायज्ञियमासीत् तदस्यामदधात्तकोषाभवन् यदस्या यज्ञियमासीत् तदमुष्यामदधात्म तदश्चन्द्रमसि कृष्णमोषान्यभवन्मतोऽध्यायेत्या वा पृथिव्याेव यज्ञयेजुनदेयमोषो अज्ञ विश्वामित्रस्य सोक्तं भवत्येतेन ने प्रियन्धामावारुन्धात्म्ये रेवैप्रियन्धामावरुन्धेन्दोभिर्वै देवासु वर्गन् लोकमा समेति उपदधा दृत्येव समेति दिशां चेवास्मै समेतो दधाच्चष्टावुपदधाच्चष्टाक्षरागायत्रैगायत्रेवाग्निस्तावुपदधाच्चष्टाक्षरागायत्रैगायत्रेकवर्गल् लोकवञ्चसामे दशवर्गस्य लोकस्य प्रज्ञा चे त्रयोदश लोकं गुणा पत्यन्तय प्रतिष्ठा वा एकव्यंशप्रतिष्ठागारः वत्य एकविंशस्यैव प्रतिष्ठाङ्गारः वत्यमनुप्रतिष्ठति प्रत्यज्ञञ्जिज्ञानस्तिष्ठति एवं वेद पञ्चजिदे गञ्जिन् वेद प्रथमं जिन्मानः पाङ्गो यज्ञः पाङ्गा ैव सुवर्गम् लोकमेतिपुरीषेणाभ्यो हि तस्मान्मा भवति एवम् मेति पञ्च भवन्ति पञ्चमे पुरीषेरभ्यो हि सम्पद्यन्ते प्रतिष्ठति एतोद्विषादे यश्च पुरार्यश्चोकायागौ समितमिच्छन्दागौ सदागौ सखलवाग्ने समात् ब्रह्मणाक्षत्रम् वेतभिर्मा वेदीक्षयन्तु मादेव पुत्रं पृथिवीपुरीष्यमित्याहर्तिभिरेवैनम् ैत्येवैर कृष्णा भवन्ति निरवृत्यैवायत्थान्यषा निवृत्तिरूपं कृष्णगौरूपेणैव निरतिं निरवदयत इमांयन्ते दिक्स्वायामेव दिश निरृतिं निरवदयते स्वकृत इयि निर्वृज्यायत एवायधयते शुक्यमभ्युपदधा ृतो वैपाक्षादेवैनृतिपाशान्मञ्जलस्र उपधाजवानेव पुरुषस्तस्मान् निरृतिमवधिं प्रणदते प्रतीक्षमायन्ति निरृज्याञ्जलिहितोपतिष्ठन्त्यमे धृत्वायकारहपत्यमुपतिष्ठन्त्यै निरृजिलोक एव चलित्वा भूतादेव लोकमुपावर्तन्त एघयोपतिष्ठन्त यमाने वीर्यन्तधनिवेशनसङ्गमनागसो नाविद्याः प्रजा वै पशुवावसुप्रजयैवेनम् पुरुषमात्रे न विमिमेते यज्ञे न वै पुरुषः संयुतो यज्ञपुरुषैव्यमेते यावान् पुरुषोर्धवा भवत्येतावत्त्वै पुरुषे वीर्यं वीर्येण वै नम्यमेते पक्षे भव जनह्य पक्षप्रतिसमर्हत्य रत्ना पक्षोद्रागीयागो भवगं दिवयागं दिव्याममात्रौ पक्षौ च पृच्छन्त्य भवत्येतावत्त्वै पुरुषे वीर्यं वीर्यवेणनाविमेक आज्ञेयौ कृष्टंमान्नात्यं जाकृष्टं भवत्यस्याहाय द्विग्मर्हते ष्पादश्च प्रात्सृत् यद् दक्षिणा च उत्सृजत्येशा वैदेव मनुष्यानाशान्तादिक्तामेवै नाननोत्सृजत्यमान् निजत्य सौवादादित्य प्राणप्राणमेवैनानोत्सृजति दक्षिणा पर्यावर्तन्ते स्वमेव वीर्यमनुपर्यावर्तन्ते तस्मात् दक्षिणोद्ध यस्यैवावृतमनुपर्यावर्तन्ते तस्मात्परान्तः पशवाभितिष्ठन्ते प्रत्यञ्च वर्तन्ते तिस्रीता कृतमेव यज्ञमुखेर्वपद ब्रह्मणान्नमवृन् चतुर्दश्राम्या ओषधे सप्तारण्या उपयेषामवृत्त्या अन्नस्यान्नस्यवृद्धे कृष्ण कृष्टेश्वय प्रति प्रयाते द्वादश मासाम्प्रोक्षे दिज्ञो लोष्टान् समस्यति दिशामेव वीर्यमवर्ध्य दिशां वीर्येयं यत्र तस्यात्तस्मैदिशो लोष्टमाहरे दिशमोऽन्यमहमिद आदधीशमेवोऽन्तस्मैरिशो वरुन्धेक्षो भवदयस्तस्याञि भवत्युत्तरवेदिमुपो भवत्युत्तरवेद्यागुव्यग्निश्चीयतेऽथो पशुभो वा उत्तरवेदि पशो नैवा वरुन्देऽथो यज्ञपरुषानन्तरित्य श्व वै सिकदानि स्मिन् परिगृह्णाति तस्मात् वज्रेण पशवः परिगृहीतास्तस्मात्त्वाशुकामस्य परिमिलयात् सप्तवेदीर्शन्या प्राणाः पशवः प्राणैरवास्मै पशोनेवदस्य शर्करा श्री हेदपरिगृहीत एवाश्रिशोरेदपराञ्चत्य पशुरेव भवति कामयेत पशुमान् स्यादिति परिमित्यदस्य शर्कराश्रिगताव्यो हेत्परिगृहीत स्मै श्रीजे गोरेदसि पशुपानेव भवति सौम्यां योमो वैरेदो दारेद एव दत्तधाति गायत्र्या प्रा मनस्य गायत्रो हि प्राणस्य त्रैष्टबोहिराजन्यशन्यं नृहस्पत्यं मे दोनोपानवत्सोत्सो कृष्णोगं कृत्वा दायश्वं राविषत्सोश्वस्यावान्तरशभो भवत्य श्वय एवमेवावृन्दे प्रजापदनाग्निश्चव्यपद्यो प्रजापति नैवाक्विञ्जनदे पुष्करवर्णमुपदधाति यो निर्वार्थे पुष्करवर्णगो दयोनिमेवाक्किञ्जनदेवाम् पृष्ठमसीत्युपदधात्यपाम् वा एतत्पृष्ठपुष्करवर्णगो रूपेणैवेन सुपदधाति ब्रह्मजज्ञानमिति ऋक्ममवदधाति ब्रह्ममुखावै प्रजापतिः प्रजा असृजत ब्रह्ममुखा एव तत् प्रजा यजमानसृजते ब्रह्ममित्या एवं वेद ब्रह्मजन पृथिव्यान्नान्तरिक्षेण दिव्यग्निश्चेतव्यै पृथिव्यान् चिन्मेत पृथिवीगोचार्पये नौषधयो नवरस्पदय प्रजायेनक्षे जिन्मेतान्तरिक्षार्पये ैरन्यवाक्रजाकस्य आदृन्न पुरुषोनां च यजमानस्य प्राणमपि दच्छात् दक्षणप्राञ्चपशोनां जयजमानस्य प्राणमपि दधात् लोकल्विष्टकाय आदर्णम प्राणानामुत्सृष्टेन्दे प्रतिष्ठा मेधा स्मर्यमयीन्दपूर्णा मोदुम्बरी स्मर्यमयीसा मोदुम्बरी मे एवपधत्ते तोष्णीमुपदधा मे दृशाक्तमधत्य दक्षिणाङ्गा स्मर्यमयीमुत्तरा मोदम्बरेन्द्रस्मादस्या उत्तराच्यस्य पूर्णा स्मर्यमहीं वज्रः कास्मर्यज्ञस्येवर्णे एव विराज्येवाज्ञमुखे यज्ञमुखेवै क्रियमाणे यज्ञ रक्षाकोदिखागो सन्धिज्ञमुखगो रुक्माय त्रमम् व्याघ्रय दम् वा देव रक्षाकस्य महन्ति पञ्च व्याघारयदि महान्द् वा देव यज्ञस्तस्मात् रक्षाकस्य महन्तक्ष्णया व्याघारयति तस्मादक्षिणया पशुवोऽङ्गानि प्रहरन्ति स्वय मातुर्नामुपदधाति यं वै श्रीमातुर्णे मामेवोपधत्ते शमुपग्रामे प्राणमेवास्यातु प्राजापत्य वाष्व प्रजापति नैवाग्निञ्जनते प्रथमेष्टगोपधीयमाना पशूनां च प्राणमुपदधाति स्वय मातृर्ना भवति प्राणानां सृष्ट्यानुक्षात्या स्तस्मै प्रथमामिष्टकां निष्कृतामृच्छेत्ताश्चोपदध्यातामग्ना वेदीश्वरो वा एषामिष्टकामुपदधा वै प्राणा प्राणा स्मृत्यैत्वा वेव देयो प्राणावेक एव एको हि प्राणपशुर्वा एष वै पशव आयवसेन मन्दे दुर्वेष्टकामुपदधाति ेषा प्रतिष्ठत्य प्रजापति प्रजापते राभ्यै देव लक्ष्मं वैत्र्यालिखतायामुत्तरलक्ष्माणन्दलक्ष्माणमधुरायङ्गामये लवदीयान् चादित्युत्तरलक्ष्माणन्दस्योपदध्या तदीयानेव भवदीयङ्गामये लभी लक्ष्मानि भावैत्रयालिखिता भवति चङ्गोडाशत् कौर्म स्वर्गं लोकमञ्जदानयनाय कौर्म यत् कौर्म स्वमेवमेधं पश्यन्तः पशतिष्ठन्ते श्मशानं वादयत्येवैं वा एतदन्न यदध्यण्यं मधु यामध्ये महे यद्यो इत्याभ्यमेवैनमुपदधार्गस्य लोकस्योर्वा उदम्बरपूर्ज्यमेवाव ्रन्थे मध्यत उपदधादि मध्यत एवास्मास्माध्यत ऊर्जाभुजयद्भवति प्रजापतनायज्ञमुखेन संविधमवहञ्चन्नमेवाकर्वैष्णव्यच्चपदधादिविष्णर्वै यज्ञा वैष्णवादयो एव यज्ञम् प्रतिष्ठापयति ेषां वा एतल्लोकानाञ्ज्यो दुःखा उपदधात्येभ्य एव लोकेभ्यो मध्यतोपदधा च मध्यत एवास्मै मध्यतो स्मैसिकदाभित्वानरस्य रूपेणैव्वानरमवरन्धेयङ्गामये दक्षोधृगस्यादित्योनानन्दस्योधृग एव भवति यङ्गा ध्ये पुरुषीर्षमुपदधातिप्रतिष्ठामेव द्युद्धं वा एत प्राणैरमेध्यैषशीर्षमृ वै प्राणां प्राणेषु हिरण्य शल्कान् नृत्यस्यति प्रतिष्ठा वेदेन महित्वा प्राणैः समर्थय मिश्रेण पूरयति मधव्योऽसानीति श्रुतादङ्केन मेद्यत्पाय क्राम्यं वा एतदन्नन्यं यथामधमिश्रेण पूरयत्युपयस्यावरुद्धि पशुशीर्षान्यपददाति पशोऽभि पशुशीर्षाणि पशुनेवावरुन्ध्येयङ्कामयेकापशुः स्यादिति विशोचीना निरस्योपदध्यात् विशौ एवास्मात् पशोन् दधाद्य पशुरेव भवधयङ्गामयेतमा समीचीनानुतस्योपद्यात् समीचये स्मै पशोन् दधाति पशुमानेव भवति पुरुस्तात् प्रीचीनश्च प्राचीनस्या पशवो वा अन्ये गो अश्वेभ्यः पशवो गो अश्वानेवास्मै पशवो त्रिपादश्च जतुष्पादश्च तान् वा एजधत्नो प्रदधादयत्वममारण्यमनुजयिषामीत्या रण्यायुरेवयमेव यजुपदधात्यै तान्ध्यय सत्त्वे य धर्मदृतेन शान्तम् अशुर्वा एषैर्यखलवा एषा पशुर्विक्रियते यत् प्राचीनमैष्ठकाद्येव दधातिपञ्चपन्ता पशवः पशो नैवास्मै पञ्च दक्षिणतो वत्रा वा अपस्यावत्रेणैव यज्ञस्य दक्षिणतो रक्षाकस्य पहन्ति पञ्च पश्चात्प्राचीनपदधाति पश्चात्मै प्राचीनतो नैवस्मै प्राचीनकौलेतो दधातिपञ्चपुरस्ता प्रदातिपञ्चपुरस्तात् प्राचेत् प्राचीनगौरेतोधीयते प्रदेजे प्रजायन्ते पञ्चत्तरदच्छन्दस्य पशु वैच्छन्दस्य पशो नैव प्रजाधान्स्वर्योत्सयिता अपश्या अपश्यत्ता उपाधो वा इमानाथ्यदहत्य उपदधा रात ससा नदराहा यो ब्रह्मणान्नै प्राणं पश्यन् शुण्ण्वन् प्राणमेवेदाभित्ताधारायं दक्षिणा विश्वकर्मे दक्षिणतोमन एवैदाभित्ताधारायं पश्चात् विश्व पश्चात् चक्षिवेदाभित्ताधारेदमुत्तरात् स्वरित्युत्तरदश्वा मेवेदाभिक्ताधारेयत्माजमेताभिक्ताधारदशोपदा जगस्मादक्षिणया वशवतिष्ठियाभिर्वष्ठ आत्मज्ञा दक्षिणादाभिर्भरत्वा जयास्पदे ज्येस्ताभिर्विश्वामित्राय उदे ज्येस्ताभिर्यावोर्दास्ताभिर्विश्वकर्माय एवमेता सामृद्धि ेव आसामेवं बुन्धतां वेदबन्धुवान् भवदीयासामेवं वृत्तं वेदकल्पते स्मैसामेव मायतां वेदायधवान् भवदीयासामेवं बतिष्ठां वेदप्रत्येव तिष्ठति प्राणदाय उपदधाति प्राणानेवास्मिन् धृत्वाय्यसंयच्छदितस्संयदागोधयत्वमो प्राण एवानन्दधाति तस्मात् प्राणापानो सञ्चरतो विशोचेन पदधा ृष्वन्तौ प्राणापाणो यद्वात्सौवामित्याहवयोभिरेवायनवर्दे सर्वतो वा यस्मादय सर्वतः भवतेभ्यम् च सह गतभिः श्रुत्वा द्विपदाया चतुष्पदा त्रिपदाया चषुपदा त्रन्दाया च विच्छन्दा शोजिभिः शिम्यन्दत्वा महाना विश्वासा कृत्वा हरिदाहरिणी सीरायुजो दे कर्मभिः अश्वस्य भाजिनस्वति सूचीभिः शिम्यन्दत्वा चिन्वन्तर्तिषोभिः श्रुत्वा जग्मुत्राणि शमिता गिः प्रथमश्रिमिता लो विशासदौ स्वाच्छत्राणि पर्वशस्ते शमांयन्तः माधास्यन्त शिंजन्तः अहोरात्राणि मरुतोमो चोदयन्तु ते पुरन्तरिक्षेण योस्ते नक्षत्रैस्सह लोकम् कृणातु साधिया इति पञ्चमकाण्डे द्वितीयः प्रश्नः समाप्तः